श्रीहरये नमः अत तृतीयोऽध्यायः नारद उवाच हिरण्यकशिपुराजन् अजेयं अजरामरम् आत्मानम् अप्रदि एकराजं व्यजधित् सथ सतेपमन्दरत्रोण्यां तपः परमधारुणम् ऊर्ध्वभाहोर्नभो पादाङ्गुष्ठाश्रितामणिः जडादितिदिभिरेजे दी संवर्तार्क इवां सुभिः तस्मिंस्तपस्तप्यमाने देवास्थानानि भेजिरे तस्य मूर्त समुद्भूतान् धूमोऽग्निस्तमुपोमयः तिर्यगूर्ध्वम् अधो लोकान् अथभद्विश्वगीरितः सुक्षुभुर्नत्युधन्वन्तस्वीभादृश्च सचालभूः जश्वलुश्च दिशो दशा तेन तप्तादिवं त्यक्त्वा ब्रह्मलोकं ययुशुराः धात्रे विज्ञापयामासोर्देवदेव जगत्पते दैत्येन्द्रतपसा तप्ता दिवि स्थातुं तस्य शोपसमं भूमन् विदेही यदि लोकानया वनक्षन्ति बलिहारास्तवा विभुः तस्यायं किल सङ्कल्पश्चरदो शूयतां श्रूयतां किं न विदितस्तवादापि निवेदितः सृष्ट्वा चराचरमितं तपो योगसमाधिना अद्यास्ते सर्वदिष्णेभ्यः परमेष्टिनिजासनम् तदहं वर्धमानेन तपो कलात्मनोश्च नित्यत्वात् स धयिष्ये तथात्मनः अन्यते तं विदास्येहम् अयथापूर्वमोजसा किमन्यै कालनिर्धूतैकल्पान्ते वैष्णवादिभिः इति शुश्रुमनिर्भन्तं तपः परमास्तितः वितस्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर तवासनं द्विजगवां पारमेष्ट्यं जगत्पते भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च इति विज्ञापितो देवैर्भगवानात्मभूर्नृप परीतो भृगुदाक्षाध्यैर्ययौ दैत्येश्वराश्रमं न दददर्श पिपीलिकाभिरा वल्मीकतृणकीचकैः पिपीलिकाभिराचीर्णमेधस्त्वक्मां दपन्तं तपसा लोकान् यथा भ्रापिहितं रविं विलक्ष्य विस्मितः प्राहप्रक्स ब्रह्मोवाच उत्तिष्ठोतिष्ठभद्रं ते तपसिद्धो काश्यप वरतोऽहमनुप्राप्तो व्रीयतामीप्सितो वरः अद्राक्षम् अकमेतत् ते हृत्सारं मगधद्भुतं दंसपक्षितदेहस्य प्राणाह्यस्तिषुसेरते नैतत्पूर्वाश्यश्चक्रोर्न करिष्यन्ति शापरे निरम्बुर्धारय यत् प्राणान् को वै दिव्यसमासम् व्यवसायेन तेनेन दुष्करेण मनस्विनाम् तपोनिष्ठेन भवतो जितोऽहं दितिनन्दन ततस्त आशिषः सर्व दतां यसुरभुङ्गवा मर्त्यस्य ते अमर्तस्य दर्शनं न मम नारतौ इत्युक्त्वा दिभवो देवो भक्षितांगं पिपीलिकैः कमण्डलु जलेनौषद् दिव्ये नामो गराधसा सतत्कीचकवल्मीकासखवोजो बलान्वितः सर्वावयवसम्पन्नो वज्रसंहनो युवा उत्तिस्तप्त हे मा भो विभावसुरिवैदसहा स निरीश्याम्बरे देवं हंसवाकम् उपस्थितं न भूमौ दद्दर्शनमहोत्सवः उत्थाय प्राञ्जलि ब्रह्म ईशम् ृसा विभुम् हर्षाश्रुपुलगोद्भेतो गिरागद्गतयागृणात् हिरण्यकशिपुरुवाच कल्पान्ते योन्धेन तमसा अभिव्यनजगदितं स्वयं ज्योतिस्वरोचिषा आत्मनाधिवृता चेतं रजस्तत्पतमो धाम्ने पराय महते नमः नम आध्याय बीजाय ज्ञानविज्ञानमूर्तये प्राणेन्द्रियमनो बुद्धिविकारैव्यक्तिमीयुषे त्वमीसिषे जगस्तस्तुष्य प्राणेन मुख्येन पथि प्रजानां चित्तस्य चित्तेर्मन इन्द्रियाणां पथिर्महान्भूतगुणाशयेशः त्वं सप्त तन्तून्वितनोषि तन्वात्रया चातुर्होत्रकविद्यया च त्वमेक आत्मात्मवतामनाधि अनन्तभारकविरन्तरात्मा त्वमेव कालो निमिषो जनानाम् आयुर्लवाध्यावयवैक्षिणोक्षि कूटस्थ आत्मा परमेष्ट्यजो महान् त्वम् जीवलोकस्य स जीव आत्मा त्वः ना परम् नापरम् अभ्यनेजत् येजस्त किञ्चिद्व्यतिरिक्तमस्त्ये विद्याकलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत् त्रिपृष्ठः व्यक्तं विभो शरीरं येनन्द्रियप्राणमनो गुणांस्त्वं भुङ्क्षे स्थितो अव्यक्त आत्मा पुरुषः पुराणः अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् चिदच्चिच्छक्तियुक्ता यतस्मै भगवते नमः यदि दास्यसि अभिमतान् वरान्मे वरधोत्तमान् भूतेभ्यस्तवत् विसृष्टेभ्यो मृत्युर्मा भून्म प्रभो नान्तर्बहिर्दिवा नक्तम् अन्यस्मादभि चायुधैः न भूमौ नाम्भरे न नरैर्न ना ना मृगैरपि व्यसुभिर्वा सुमद्भिर्वा सुरासुरमहोरगैः अप्रदिद्वन्द्वदां युद्धे जगत्पत्यं च देहिनां सर्वेषां लोकपालानां महिमानं यथात्मनः तपोयोगप्रभावाणां यन्नरिष्यति कर्हि इति श्रीमद्भागवते महापुराणे सप्तमस्कन्दे हिरण्यकशिपोर्वरयाचनं नाम द्वितीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमकराजके जै